काटके प्रथमप्रश्नप्रारम्भः ओ सञ्ज्ञानम् विज्ञानम् प्रज्ञानम् जानदभिजानद् सङ्कल्पमानम् प्रकल्पमानमुपकल्पमानमुपकृतम् क्लप्तम् श्रेयोपसेय आयत्सम्भूतम् भूतम् चित्रः क्षेतः प्रभानाभान् सम्भान ज्यो यष्मागस्तेजश्वानाथमग्रस्तपन्नभितवन्ने रोचनो रोचमानः शोभनः शोभमानः कल्याणः दर्शा दृष्टादर्शदा विश्वरूपा सुदर्शना आप्यायमानाप्यायमानाप्यायासूनृदेराः आपूर्यमाणापूर्यमाणा पूरयन् देवोर्णापोर्णभागे दाता प्रदातानन्दो मोदः प्रमोदः आवेशयन्निवेशयन् संवेशनः स पुंशान्तः शान्तः आभवन् प्रभवन् सम्भवन् सम्भोदो भूदः प्रस्तुतम् विस्तृतपुंस गस्तुतम् कल्याणम् विश्वरूपम् शुक्रममृतम् तेजस्पितेजः समिद्धम् अर्णम् भावनम् मलेजमलभिरवर्तपस्वदे देप्तो देवयम् देप्यमानः ज्वरम् ज्वलिता तपन्वितपन् सन्तपन् रोचन रोचमानः शुम्भो शृम्भमानो वामः सुता सुम्वते प्रसुता सूचमानाभिषूयमाणा वीरे प्रभासम्पादृत्यस्तर्पयन्ते कान्ता काम्या कामजाता यष्मते कामदुघाः अभिशास्तानुमन्दानन्दो मोदः प्रमोदः आसादयन्निषादयन् सगुंसादनः सगुंसन्नः सन्नः आभोर्विभो प्रभोः शम्भोर्भुवः पवित्रम् भगवष्यन् मोदो मेभ्यः यशो यशस्वानायः येवो जष्यान् जयन्नभिजयन् सुद्रविणोद्रविणोदाः आर्द्रपवित्रो हरिकेशो मोदप्रमोदः अरुणोरुणलगा पुण्डरेको विश्वजिनभिज आर्द्रः पिण्डमानोन्नभान्तसवानिनावान् सर्वौषधः सम्भव महस्मान् एषत्काजो मत्काः शुण्डकाः श्रुविष्टकाः सरिसराशुशैरवः अजिराधोकविष्णवः इदानीम् पदानी मेधलेः क्षिप्रमदिनम् आशुन्मेधः फलोऽर्गवन्न चिद्रवन् त्वरज्ञस्त्वरमान आशुराशीयाञ्जपः अर्निष्वममुक्षोदिरात्रोऽग्निरात्रस्त्रिरात्रश्च दोरात्रः अर्घ्यरतः सूर्यरतश्चन्द्रमा ऋतुः प्रजाभयः संवत्सरो धोरङ्गिम् च पृथिवेञ्च माम् च रेकृष्टान्संवत्सरम् च प्रजापतिश्वासादयतो रजयवतयाङ्ग्लिरस्मध्रुवादेन भो वायुम् चान्तरिक्षञ्चमाम् च रेकृष्टान्संवत्सरम् च प्रजापतिश्वासादयतो प्रजाजयवतयाङ्ग्लस्मध्रुपादेन स्वरादित्यम् च दिवञ्चमाम् च श्रीकृष्णलोकान् संवत्सरम् च प्रजापतिस्वासादयतो प्रजा देवतयाङ्गिरस्वद्भ्रुपासीत भोद्भुवस्वश्चन्द्रमसञ्जनिधृष्टमान् च श्रीकृष्णलोकान् संवत्सरम् च प्रजापतिस्वासानयतो प्रजा देवतया गिरस्मद्भ्रुपाधीत त्वमेव त्वाम्बेखयोसि त्वमेव त्त्वामजेषेः चितश्चाभिसञ्चितश्चाशज्ञे एता वागश्चादिभूजागश्चाशग्ने यत्ते अग्नेऽन्योनञ्जिवेतिरिक्तम् आदित्यास्तदञ्जिरतश्चिन्वन्तो विश्वे ते देवाश्चितिमापूरयन्तो दे चितश्चाभिसञ्चितश्चाशग्ने एता वागश्चादिभूजागश्चाश्लग्ने माते अग्ने जयेन माधिजयेन युला वृक्षे सर्वे धाञ्ज्योतिषाम् ज्योतिर्यदता उदेति तपसौ जातमनिषष्टमोजः जा। तत्ते ज्योतिरिष्टके तेन मे तप तेन मे ज्वला येन मे दीदिः दी। यावद्देवाः यावदसाति सूर्यः या, यावदसा विब्रह्मा संवत्सरोधिपरिवत्सरोधि इदावत्सरोधिगुवत्सरोधि यद्वत्सरोधिवत्सरोधि तस्य देवसन्तः शिरः ग्रेष्मो दक्षिणः पक्षः परिधाः पुच्छम् शरदुत्तरः पक्षः हेमन्तो मध्यम् पूर्वपक्षाश्चितयः अपरपक्षाः पुरेशम् अहोरात्राणेष्टकाः स्वर्गो लोकः यस्याम् निशिमहीयसे आवह वायुर्भो त्वा सर्वादिश आवाहि सर्वादिशो नविवाहे सर्वादिशो नसंवाहि चित्याच्युतिमापणा अचित्याच्युतिमापणा चिरति समुद्रयोनिः इन्दुर्दक्षस्येनतावाहरण्यपक्षस्य गुणोऽभुरण्यः महान्ध्रुवः निषत्तः नमस्तेऽस्तु मामाहि गंसेः े दिवेत्येच्छा अन्तरिक्षम् मेच्छा पृथिवेम् मेच्छा पृथिवेम् मेच्छा अन्तरिक्षम् मेच्छा दिवम् मेच्छा अन्धा प्रसारय रात्र्या समजा रात्रिया प्रसारय अन्धा समजा कामम् प्रसारय कामकम् समजा भोद्भवस्वः भोजोबलम् ब्रह्मक्षत्रम् यशो महदन्तपो नाम रूपमृतम् चक्षुश्रोत्रम् मनायुः विश्वञ्जशो महः समन्तपोहलोभाः जादवेदायिनि वापामकोऽसि वैष्मादलो यनिवा वेद्युतोऽसि सम्प्रदाभ्यविदमानाय ुष्ट्यम् तभ्यापृक्षा राज्ञी विराज्ञेः सम्राज्ञेः स्वराज्ञेः अर्चिशोकिः अपोहरोभाः अग्निन्द्रो बृहस्पतिः विश्वेदेवाभुवनस्य गोपाः ते मासर्वेशशासकम् सृजन्तो असरेऽस्वाहासवे स्वाहा विभुवे स्वाहा विवस्पते स्वाहा अभिभूषे स्वाहाधि स्वाहा दिवाम्पदये स्वाहास्पत्याय स्वाहा चाक्षुष्मत्याय स्वाहा ज्योतिष्मत्याय स्वाहा राज्ञे स्वाहा विराज्ञे स्वाहा सम्राज्ञे स्वाहा स्वाज्ञे स्वाहा शुषाय चन्द्रमदे यस्वाहा ज्योतिषे यस्वाहागुण् सर्पाय स्वाहा कल्याणाय स्वाहा अर्जुनाय स्वाहा निपश्चिते पवमानायगाय महीरधारात्यन्धो हरिषदेहरेर्नामलिसर्पजस्पजम् वयामुहे नो च मृत्यवेत्त्वा दुष्टम् गृह्णामि एतते योजन् मृत्यवेत्त्वा अपमृत्यमपक्षुधम् अपेतशपथञ्जिः पथानाज्ञानः रायस्पोषकम् सहस्रिणम् एतेन हर्स्रमयम्पाशाः मृत्युमत्याज हन्तवे तानि यज्ञस्य मालिराः सर्वानवयजामहे भक्षास्य मतभक्षः तस्य तेन मत्यपेदस्या मतमदः स्वर्गागतस्य मधुमदः उपभूतस्यापहोता भक्षयामि मन्द्राविभोजः केतुरिजज्ञानाम् वा असावेः अन्धोजागविष्काण असावेः बजराकरन्दैतरवान आस्तो असावेः आस्तोस्त्वाचक्षुः असावेः अपादाशोमनः असावेः कदे विप्रचित्ते श्रोत्र असावेः सुहस्तः सुभासाः शोषो नामास्यमुत्तेषु तन्त्वाहन्तसा वेद असावेः अग्रन्मे वाजश्रुदः वाहृदये हृदयं मयि अहमृदेः अमृतम् ब्रह्मणि वायुर्मे प्राणे श्रुतः प्राणोहृदये हृदयं मयि अहमृदे अमृतम् ब्रह्मणि सूर्यो मे चक्षुरिष्यतः चक्षुरहृदये हृदयम् मयि अहमृदय अमृतम् ब्रह्मणि चन्द्रमा मे मनसिष्यतः मनाहृदये हृदयं मयि अहमृदय अमृतम् ब्रह्मणि दिशो मे श्रोत्रे श्रुताः श्रोत्रहृदये हृदयं मयि अहमृदय अमृतम् ब्रह्मणि आपो मे नेतज श्रुता रेतो हृदये हृदयम् मयि अहमृतेर अमृतम् ब्रह्मणि पृथिवी मे शरीरे श्रुता शरीरकम् हृदये हृदयम् मयि अहमृतेर अमृतम् ब्रह्मणि वोढतिवनस्पृगो मे लोमतः श्रुता लोमानि हृदये हृदयम् मयि अहमृतेर अमृतम् ब्रह्मणि इन्द्रो मे बलेश्व बलकम् हृदये हृदयं मयि अहमतेर अमृतम् ब्रह्मणि पर्जन्यो अहमते अमृतम् ब्रह्मणि ईशानो मे मन्योषतः मन्युहृदये हृदयं मयि अहमृतेन आत्मा हृदये हृदयम् मयि अहमृते अमृतम् ब्रह्मणे पुनर्मः आत्मा पुनरायुरागात् पुनःप्राणः पुनरागूतमागात् अयैश्वारोनिधर्मावधानः दे, अन्तस्तिष्ठत्वमदस्य गोपाः प्रजापतिर्देवानसजता पेपात्मना सन्दिता जायन्ता तान्यजत् यद्यज्यते तस्माद्विद्युत् अमपृश्यत् यदपृश्यत् तस्माद्दृष्टिः तस्माद्यत्रैते देवते अभिप्राप्नुतः विनहैवास्तत्रपात्मानम् यतः पृश्यतश्च तेषामीमा पुंसाग्निहोऽत्र देवसम्पन्ना अतो आहो सर्वे नित्यक्दृश्मिते भोष्यन्नपोपस्पृशेत् विद्युदसि विद्यमे पाप्मानमिति असहत्तोपस्पृशेत् वृष्टिरसिश्च मे पात्मानमिति यक्ष्यमाणो वेष्वा विगरैः श्रीते देवते पात्मानञ्जनः प्रश्नश्च अर्कुम्भोहारुणिः ब्रह्मचारिणे प्रष्टान् प्रोच्च प्रतिघाय परेः प्रक्षन्दय्याम् पादिम् पृच्छ इति समागत्यमप्रच्छा आचार्यो मार्थ इति स्वति स कस्मिन् प्रतिष्ठित इति परोनिषेति कस्तद्यत्परोनझा इति एष वावसफलो न जायिति होवाच न एष तपदे एषोर्वाग्रजायिति स यस्मिन् त्रेषयति सत्य इति किं तत्सत्यमिति तपगिते तस्मिन्नुदपगिते बल इति किं तद्बलमिति प्राण इति मा स्म प्राणमतिपृच्छदिति वाचार्य प्रवेशिति होवाच ब्रह्मचारी सहोवाच प्रक्षोदय्याम्पादिः हे द्वे ब्रह्मचारिप्राणमत्यः प्रक्षः ओर्था देव्यपदिश्यते अहम् उदाचार्याच्छ्रेयान्भविष्यामि व्यो मा सा वित्रे समवादिष्ठेति अस्मात् सा वित्रेण संवदेत स यो हवे सा वित्रम् विदुषा सा वित्रे अन्वस्मै श्रेस्तपो मन्यते अन्वस्मै तपो बलम् मन्यते अन्वस्मै बलम् प्राणम् मन्यते एताः सञ्ज्ञानम् विज्ञानम् दर्शा दृष्टेति एष एव तत् अथगलाः प्रस्तुतम् विष्णुतकम् सुतासम् वचेति एष एव चित्रः केतुर्दाता प्रदाता सविता प्रसविताभिस्तानुमन्ते एष एव पदते एषः केवते अण्ढो महोत्राः एष रात्रेः अथयदाः पवित्रम् पवयिष्यान् स स्वान् सहीयानुरजा इति एष अग्निष्टावोग्निरतः प्रजापयः संवत्सरे एष एव वदत् एषक्येव यज्ञग्रजवः एष रदवः एष संवत्सरः अथैलाः इदानीयम् तदानीमिजे एष एवदत् एषके मदे मुहूर्तानाम् यो वा अस्मान् वेद विजहत्पात्मानमेते सर्वमायुरेते अभिस्वर्गम् लोकम् जयते नास्यामुष्मल्लोकेऽन्नम् क्षीयत इति विजहद्धवैपात्मानमेते सर्वमायुरेदे अभिस्वर्गम् क्षीयते यजैवम् वेद अधीनाः अश्वः सावित्रम् सः हगुंसो हिरण्मयो भूत्वा स्वर्गम् लोकमियाय आदित्यस्य चायुज्यम् हगुंसो हवेः अन्मयो भूत्वा स्वर्गम् लोकमेति आदित्यश्चायुज्यम् य एवम् वेद देवभागोः श्रौतर्षः सा वित्रम् वितां चकार रघुम् हवागदर्श्यमानाभ्युवाच सर्वम् वदगौ चा कैलाकसैते अयमहगुंसा मित्रः देवानामुत्तमो लोकः पुह्यम् महाभ्रति एतावधिगौतमः यज्ञाववेशम् कृत्वा सो, सो निपपात नमो नमयिते सहोवाच माभेर्गौतम वितो वैतेर्लोकयिते तस्माद्येते जता वित्रम् पितुः सर्वे ते तयोः वैषा वित्रस्याष्टाक्षरम् पदग् श्रियाभिषिक्तम् वेद श्रियाहैवाभिषित्ये अक्षरेत्रेण आदित्यैरित्रेण एतद्वैषा वित्रस्याष्टाक्षरम् पदग्निश्रियाभिषिक्तम् एवम् वेद श्रिया हैवाभिषिच्यते तदेतदिताभ्युक्तम् ऋतोक्षरे परमे व्यो मन्मेवान्न वेदिमचाकरिष्यति यत्तद्विदत्र इमे समासर इति प्रहवानेतस्य यः सा वित्रम् वेद तदेतत्पर्यद्देव चक्रम् आर्द्रम् पिण्डमानज्ञः स्वर्गे लोगजयति विजहद्विश्वा भूतानि सम्पश्यते आद्रो हवेपिण्डमानः स्वर्गे लोकयेति विजहन्विश्वा भूतानि सम्पश्यन् य एवम् वेद शोषो हवैवा श्रेयः आदित्येन समाजगाम प्रगमहोवाच ये हिषा वित्रम् विद्धि अयम् वै स्वर्गोग्निःपाष्णुनता सम्बोधये एष वा तदा वित्रः विद्धि इति हिमैनम् इयम् वामसनघा अस्याग्निरेवता विधम् मधु या एताः पूर्वपक्षामलपक्षयोरात्र्यः तामसुकृत याण्यहाने हेमधुपृषाः स यो हमालेतामसुकृतश्च मसुपृषाकश्च वेद कुर्वन्ति हाश्रयिताग्नौ मधु यन्तस्येष्टामूर्तम् यो हवाहोरात्राणाम् नामधेयानि वेद नाहोरात्रेष्मार्तिमार्धते सञ्ज्ञानम् विज्ञानम् दृशा तिष्ठेति एतावनुवाकोपूर्णपक्षस्याहोरात्राणाम् नामधेयानि ना प्रस्तुतम् ना विश्वदगुरु सुरासम् वदेति एतावनुवाकावपरपक्षस्याहोरात्राणाम् नामधेयानि ना नाहो रात्रेष्वार्थिमार्चति एवम् वेद यो हदेमुहूर्तानामधेनामोहोत्रेष्वार्थिमार्च्छति चित्र केतुर्दाप्रदालमिता प्रदमिताभिधास्तानुमन्त्रे एतेन वाकामुहूर्तानाम् नामधेयानि नमोहोत्रेष्वार्थिमार्च्छति ना एवम् वेद यो हमार्धमासानाहञमासानाञ्जनामधेयानि वेद नार्धमासेषु न मासेष्वार्तिमार्च्छति पवित्रम् पवयिष्ठ्यान् सह स्वान् सहीजानृणो ऋणर्जायी एतेन वाशार्थमासानाहञ्जमाधानाञ्जनामधेयानि नार्धमासेषु न मासेष्वातिमार्च्छति एवम् वेद अयज्ञक्रदृष्णसंवत्सराजिमार्चति अग्निष्टवत्सर इति एतेन वाकायज्ञो नाम् च संवत्सरस्य जनामधेयानि अयज्ञक्रदृष्ण टृं वत्सरार्तिमार्चति वेद यो हि मुहूर्तानाम् मुहूर्तानि वेद न मुहूर्तानाम् मुहूर्तेष्वार्तिमार्चति इदानीम् तदानी एते वि मुहूर्तानाम् मुहूर्ताः न मुहूर्तानाम् मुहूर्तेष्वार्तिमार्च्छति एवम् वेद अथो यथा क्षयत्रज्ञामुहूर्तान् प्रविशान्नमत्ति एवमेवैतांश्रज्ञो भूत्वानप्रविश्रान्नमत्ति स यतेजामेव स लोकतापुंसायुज्यमश्रुते अवमदमृत्युम् च यदि य एवम् वेद कश्चिद्धमा अस्माल्लोकात् प्रेत्य आत्मानम् वेद अयमहमस्मीति स्वल्लोकण् प्रतिर्प्रजानादिभैवैतमज्ञम् वेदवास्मान् लोकाप्रेत्य आत्मानम् वेद अयमहमस्मीति स्वस्मम् लोकम् प्रतिप्रजानादि एककुभेदेन तत्सा मित्रः स्वर्गम् लोकमभिवहति होरात्रैर्वा इदगुंसेभ्यः क्रियते इति रात्राया दीक्षिषत त्राय वृतमुपा गुरुजे तानिहानेवम् विदुषः अमुष्मिल्लोकेशे वचुञ्झयन्ति भेदकम् हैवसचे मथिम न परैति अथयो हैवैतमग्निगन्धा मित्रम् वेद तस्य हैवाहो रात्राणि अमुष्मिल्लोकेशे मथिर्नशयन्ति अभीतकम् हैवसे मथिमनपरैति भरद्वायोः इन्द्रो व्रजो वाच भरद्वाजा यत्रत्सवायुर्द्या किमेन कुर्याविरे ब्रह्मचर्यमेव होवाचत्वेन गैरूपानविज्ञातानि मजलशयाञ्च काल तेषा कुम्हैकैकस्मान्मुष्टिनाददे स होवाच भरद्वाजे चामन्त्र्या वेदावा वेते अनन्ता वैवेलाह एतद्वानेतैः एत स्त्रिभिरायुर्भिरन्नमोचाः असदैतरसनुनोक्तमेव हे हिमम् विद्धे अयम् वैशम् विद्येते तस्मै हैतमद्यपुंसामित्रमुवाच प्रपुंसमिलित्वा अमृतो भूत्वा स्वर्गम् लोकमियाय आदित्यस्य चायुज्यम् अमृतो हैम भूत्वा स्वर्गम् अवगमेति आदित्यस्य चायुज्यम् यदेवम् वेद एषमरेवरी विद्या यावन्तको हवये त्रिय्या विद्यया लोकम् जयति तावन्तम् लोकञ्जयति स एवम् वेद अग्नेर्वा जेतानि नामधेयानि अग्नेरेव सायुज्यकम् स लोकतामाप्नोति स एवम् वेद वायोर्वा जतानि नामधेयानि वायोरेव सायुज्यकम् यज एवम् वेद इन्द्रस्य वा एतानि नामधेयानि इन्द्रस्यैव सारित्रगुन्सलोगतामाप्नोति नाम यजेवम् वेद बृहस्पतेर्वा एतानि नामधेयानि बृहस्पतेरेव सारिजुम् सलोगतामाप्नोति यजेवम् वेद प्रजापते अर्वा एतानि नामधेयानि प्रजापतेरेव सारिजगम् सलोगतामाप्नोति य एवम् ब्रह्मणो वा एतानि नामधेयानि ब्रह्मणकेवत्यगुंसलोकतामाप्नोति जग एवम् वेद सवादेशो गिरपक्षपुच्छो वायुरेव तस्याव्यमुखम् अथवा नित्यश्रः अयदेते देवते अन्तरेण तत्सर्वगुंसेव्यति तस्मात् सावित्रः ओ